नमस्ते रुद्रमन्यव उतोषपे नमः नमस्ते अस्तु सन्मने बाहुभ्यामुदते नमः यात इषः शिवतमा शिवम् बभूवदे धनुः शिवा शरौजा यातवदया नो रुद्रशिवा या रुद्र तनु रघोरापापकाशिनी दया नस्तनुवासम् तमजागिरिशन्दापि चाकशीः यामिषम् गिरिशन्त या हस्तेऽपि शिवाङ्गित्वताम् कुरु माहिगुंसे पुरुषम् जगत् शिवेन भचसा त्वागिदिशाच्छा वदामसि निषालः सर्वमिजगत् लक्ष्मगुम् सुमना असत् अध्यवोचदधिभक्ता प्रथमो देव्याभिषके महेयश्च सर्वाः जम्भयान् सर्वाश्रयातु धान्यः असौ यस्ताङ्गरुणबुधबभ्रस्तु मङ्गलः ये जय मागुम् रुद्रा अभितो दिक्षुसिताः सहस्रशोभैषागुम्भेड जीमहे असौरोपसर्पदिनीलग्रीवो विलाषितः उतैनम् गोपा अदृशन्नदृशन्नदहार्जः उतैनम् विश्वा भूतानि स दृष्ट्वा मृडजातिनः नमास्तु नीलग्रीवाय सहस्राक्षायमेटुषे अथोजे अस्तः त्वानोऽहम् देव्यो करम् नमः प्रमुञ्च संवरस्तमुभयोराग्नियोर्ज्या याश्च देहस्तनिषवः परादा भगवो बप भवदत्यधनुस्त्वकम् सहस्राक्षसेषु चे निशील्यशल्याणाम् मुखा शिवो नः सुमना भव वीर्यम् धनुःकवर्दिनो विशल्यो बाणवागम् उप अनेशम् अस्येष महाभुरस्य निषम् गसिः तयास्मानि विश्वदस्त्वम यक्ष्मजा परिभुज नमस्ते अस्माभिजानाददाय वैष्णवे उभाभ्यामुददे नमो बाहुभ्याम् तव धन्मने फलिते धन्मनो हेतुरस्मान् वृणद् विश्वतः अथो चषधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन्विश्वेश्वर य देवाय त्र्यम्बकायत्रिपुरान्धकायत्रिकालाग्निकालाय कालाग्निरुद्राय नेलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीवन्महा देवाय नमः नमो हिरण्यवाहवेशेनान्ये दशां च पदजे नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पदरे नमो नमस्मिन्दराध्युषे मदे वचीनां पदजे नमो नमो बभृशायुजातिनेऽन्नानां पुष्टानां पदजे नमो नमो भवस्य नमो नमो रुद्राजातदाविने क्षेत्राणां नमो नमः सूताया हंजायवनानाम् पददे नमो नमो रोहिताय पददे वृक्षाणाम् नमो नमो मन्त्रणे वाणिजाय कक्षाणाम् पददे नमो नमो भुवं ददेवायवस्कृता जौषधीनाम् पददे नमो नम उच्चैर्घोषाय क्रन्दय देपत्तीनाम् पददे नमो नमः कृत्स्नवेतायथापदे सत्त्वनाम् पददे नमः नमः सहमानाय निं जाधिन आं जाथिनीनां पतदे नमो नमः कगुभाय निषङ्गिणेस्तेनाम् पतरे नमो नमो निषङ्गिणमते तस्कराणां पतदे नमो नमो वञ्चते परिवञ्चदे स्तायूनां पतदे नमो नमो निचै न वय परिचराजारण्यानां नमो नमसृकाभिभ्यो दिखागुं सद्भ्य मृष्णुनां पतदे नमो नमोऽभ्यस्तकं नमो नम नमो नम विषुमद्भो धन् वा विभ्यश्च नमो नमः आतन्वा नेभ्यः नमो नमः आयच्छद्भ्य सृजद्भ्यश्च नमो नमास्यद्व विद्वद्भ्यश्च व नमो नमः आसेनेभ्येभ्यश्च व नमो नमस्तवद्भ नमो नमस्तिष्ठद्भ्यो नमो नमः भ्यश्च भवदिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदेभ्यश्च वो नमः विविद्धं देभ्यश्च वन मानमपुगणाभ्यस्त्रब्रह्मदेभ्यश्च वन मानम कृच्छेभ्य गृच्छपदेभ्यश्च वन मानमोऽ व्रातेभ्यो व्रातपदेभ्यश्च वन मानव गणेभ्य गणपदेभ्यश्च वान मानवभ्य विश्वरोपेभ्यवान मानव महद्भ्यः क्षुल्लकेभ्यश्चवान मानमा रथेभ्य रचयभ्यश्च वन मानमा रथे पदेभ्यश्च वो न मानमस्येनाभ्येनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहेतुभ्यश्च वो नमो नमस्तक्षभ्यो न सकारेभ्यश्च नमो नमः कुलादेभ्यः मारेभ्यश्च वो न मानवः कुन्दिष्टेभ्यो निषानेभ्यश्च नमो नमः इषकृद्भ्यो धन्मकृद्भ्यश्च वो नमो नमः वृगजेभ्य नमो नमस्वभ्यश्च पदिभ्यश्च नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशपदय च नग्रीवाय दश दण्ठाय च नमः च व्यक्केशाय च नमः सहस्राक्षाय च सतधन्मने चमोऽशाय चाय च नो मे ठुष्टमा च मयनमो ह्रस्वाय जनामो बृहदय च वऋषेजसे च नमा वृद्धाय च संवृद्धने च नग्रियाय च ने भ्यजागत सेभ्यागत नव कोऽ्यागचावस्वन्यागत नमः च नममोहा ज्येष्ठाय जघनिष्ठाय जनमः पूर्वजाय च परजाय धनमो मध्यमागजा गन्भाय जनमो चिन्दते धनमो बर्मिणे च वरोचने धनमो बिन्मिने च कवचने जनमश्रुताय च श्रुतसेनाय च नमो दुं दुभ्याज चनन्याय च नमो तृष्णवे च प्रमृषाय च नमो दूताय धृताय च नमानिषङ्गिणे च मदे जनमस्तेष्णेष्ठवे च युधिने जनमस्वायुधाय धने जनमस्मृत्याय जत्याय जनवः काप्याय च नेप्याय जनमस्वोद्याय च रस्याय ध मेघ्याय च विद्युत्याय च न वेभ्ययाय चा तप्याय च नभो वात्याय च लेश्म्याय च नभो नमः सोमाय च रुद्राय च नमस्ताम्राय च नमशङ्काय च पशुपतजय च नम च नमो अग्रे वधाय च दूरे वधाय च नमो ह्रे जहनी च नमो वृक्षेभ्यो हरिवेशेभ्यो नमस्ताराय नमशम्भवे जमजो भवे च नमः शङ्कराय च नमशिवाय च शिवतराय चमस्त्य च गोल्याय च जा च नमः प्रतरणाय चोत्तरणाय च नम आधार्याय चालाज्याय च नमषष्ठ्याय चैन्याय च नमस्य गत्याय च नमगिरण्याय चनमह् शिराज चक्षयणाय धनमह्कपघे च पुरस्तरे जनभोगोष्ठ्याय जगिष्याय जनभस्तल्भ्याय जनमो हद्याज जनभेष्ट्याय जनमस्पागं सव्याय जरदस्याय जनमशुष्याय धरत्याय जनमलोप्याय चोलभ्याय च नमपूर्याय य जनवापगुरमाणाय चाभिक्षणते च न प्रक्षिदते जनवालिकेभ्यो देवाहृदयेभ्यो नमाभिक्षेटकेभ्यो नमा विचिन्वत्केभ्यो न आनिर्हतेभ्यो नीमत्येभ्यः भावे अन्धदस्पदे दरिद्रम् येषाम् पुरुषाणामेषाम् पशूनाम् एषाम् भिञ्च <the> <God> नामच राते रुद्रशिवातनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तदा नो वृणजीवसे निमागम् रुद्राय तमसे कवर्धिने क्षयन्वी राजप्रभरामहे मतिम् नमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानरुद्र तमामयस्कृतिक्षयव्ये राजनमसा विधेमते याच्छ्रान्तजा समनुरागजे पिता तदस्या मदवरुद्र प्रणीतौ माना महान्त मुदमानार्धकम् मानावधे पितरम् मादमादरम् वृजामानस्तनुवो रुद्ररीरुषः मानस्तोकेतनजे मान आयुषि मानो गोषु मानो अश्वेश्वरीरुषः वीरान्मानो रुद्रभामितो विश्वम् तो नमसा विधेमते आराध्ये गोग्षर्धे क्षयद्वीरायशं नमस्मेते अस्तु रक्षाजन अशजेवनम् मृगन्न भेमौ ग्रम्चरित्रैरुद्रस्तवानो अन्यन्ते अस्मन्यपन्तु हेतुर्वृणक्तपरिद्वेस्यमेध्वस्तो कायतनजा मे भक्तमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् यथा जकृत्यम् वसानहा च रविनाकम्ब्यभ्रदागहि विकिलिदविलोहितनमस्ते अस्तु भगवः यास्ते सहस्रगुम्हेतयोन्यमस्मन्यवपन्तुताः सहस्राणिदः श्र बाहुवोस्तव हेतयः तासामीशानो भगवः पराचेना मुखाकृधि सहस्राणि सहस्रशोदे रुद्रा अधिभूम्या एषाकम् सहस्रजोजने वधन्वाणि तम् असि अस्मिन् महत्यर्णवे परिक्षे भवा अधि नीलग्रे वा श्रुतिकण्ठाः शर्वा ये वृक्षेषु तस्मिन् दरा ये भूतानामधिपतजो शिखासः कपद्दिनः ये अन्येषु विविध्यम् दिपात्रेषु पिपतो जनान् ये पथाम्बलक्षद ऐलभृताय विजुधः ये तेच्छानि प्रचलन्त शिखावन्तो निषङ्गिणः यावस्थभूजागम् स्यशोरुद्रावितस्थिरे तेषागम् सहस्रजो धनेऽन्वाणि तन्मसि नमारुभ्रे प्रसविजा दीक्षेस्तेदश प्राचेऽर्दश दक्षिणा दश प्रदेचेर्दशोदेचेर्दशोऽर्थास्तेऽभ्यो नमस्ते नामृणयम् तुलयम् दृष्मा चतम् भोजम्भे दधामि ओम्बकहे सुगन्ध्यम् भक्तिवर्धनम् मिबन्धनान् मृत्यो रुमक्षेयमामृता यो रुद्रो अग्नो यो आप्सृयवोषधेषद्रो विश्वा भुवनारिवेशदस्मे रुद्राजनवो अस्तु तमुष्टृह्यस्विशुश्रुधम्भाजो विश्वस्य क्षयति भेषज स्यात् यक्ष्वा महेशो मनसाय रुद्रन्नेवमसुरन् नुमस्या अयम् मे हस्त भगवानयम् मे भगवत्तरः अयम् मे हे विश्वभेशतो यगम् शिवाभिमर्शनः सहस्रमगतम् पाशा मृत्यो मर्त्याय हन्त मे तानि यज्ञस्य पायजा भगवते रुद्राय विष्णवे मृत्युर्मे भाई प्राण जलद्रामाविश्रान्तगाः एनान्येनाहाप्याहस्वा न वारद्राय विष्णवे मृत्यर्मे ष्टमे पञ्चतमे सप्तशमे नव च मदेकादशतमे त्रयोदशतमे पञ्चदशतमे सप्तदशतमे नवदशतमदेकविगुं चतुष्टमे त्रयोभिगुं षतिष्टमे पञ्चभिगुं षिष्टमे सप्तविघुं षिष्टमे नवभिगुं षतिष्टमदेकत्रियं षष्टमे त्रयस्त्रियं षष्टमे चतुस्रष्टमे अष्टौचमे द्वादशतमे षोडशतमे विघं षतिष्टमे चतुर्विघं षतिष्टमें षतिष्टमे सप्तमे क्षत्रियं सप्तमे चत्वारिकं सप्तमे चतुश्चत्वारिकं सप्तमेष्टाचत्वारिकं सत्यमे पादस्य प्रथमश्चायश्च क्रदुश्च सुभश्च मोर्धातौ यस्नेयश्चान्द्याजनश्चान्यश्च भौवनश्च भुवनश्चाधिपतिश्च